अथ ओम वो पूर्णमदः पोर्णमिदम् पूर्णात्पूर्णमुदच्छते पूर्णस्य पूर्णमदाय पूर्णमेवावशिष्यते व ब्रह्मकं पुराणं वायुरङ्खमिति हस्माः कौरव्यायणी पुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् त्रयाः प्राजावत्याः प्रजापतोऽपितरि ब्रह्मचर्यमोषुदेवामनुष्या असुरापुषित्वा ब्रह्मचर्यम् देवावोच ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाचत इति व्यज्ञातिष्ठा इति व्यज्ञासिष्मेति होदर्तां यथेति न आथेत्योमिति होवाचव्यज्ञासिष्ठेति असहैनम् मनुष्या ऊ चर्ब्रवीतु नो भवामिति तेभ्यो हैता देवाक्षरमुवाचत इतिं यज्ञाशिष्टा इतिं यज्ञासिष्मेति होचर्दत्तेति न आध्येत्वमिति थ हैनमसुरा ऊच ब्रवीतु भवानिति तेभ्यो हैतदेवाक्षरमुवाचन इति व्यज्ञाशिष्टा इति व्यज्ञासिष्मेति होचद्धयध्वमिति न आक्षेत्यमिति त्र ये शिक्षे एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्यक्षरग्रहृदयमिति हे इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवम् वेदन इत्येकमक्षरम् ददत्यस्मै स्वाश्चान्ये च य एवं वेदयमित्येकमक्षरमेति स्वर्गं लोक य एवं वेदा तद्वैतलेतदेव तदा सत्यमेव स योहैतम् महाध्यक्षं प्रथमजं वेदसत्यं ब्रह्मेति जयती माल्लोकाञ्जित इन्वसावसद्य एवमेतन्महाध्यक्षं प्रथमजं वेदसत्यं ब्रह्मेति सत्यग्रह्येव ब्रह्मा आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवाज्ञस्ते देवासत्यमे भोपासते दे तदेतत्यक्षरग्रे सत्यमिति स इत्येकमक्षरन्तीत्येकमक्षरञ्यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतो नृतं तदेतदनृतमुभयतस् सत्य नरगृहत सत्यूयमे नं विवासमृतिन नस् तद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायम् दक्षिणेक्षन् पुरुषस्तावेतामन्यान्यस्मिन्प्रतिष्ठितो रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलम् पश्यति नैनमेते रश्मयः प्रत्याययन्ती य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकग्रे शिर एकमेतदक्षरम्भुव इति बाहो द्वौ बाहो द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहलिति हन्ति पाप्मानम् जहाति च एवं वेदा योऽयं दक्षिणे क्षन् पुरुषस्तस्य भोरिति शिर एकज्ञे शिर एकमेतदक्षरम् भुव इति बाहो द्वो बाहो द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे हन्ति पा जहाति च एवम् वेदा मनोमयोऽयम् पुरुषो भा सत्यस्त तस्मिन्नन्तर्हृदये यथा व्रीहिर्वायवो वास एष सर्वस्येषानः सर्वस्याधिपतिः सर्वमिदम् प्रशास्ति यदिदम् किञ्च विद्युद्ब्रह्मेत्याहल्विदानाद् विद्युद्विद्यत्येनम् पाप्नाय एवम् भेदविद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म आचन्धेनमुपासीत तस्याश्चत्वारस्तनाः स्वाहाकारो वषत्कारो हन्तकारस्वधाकारस्तस्यैद्वौस्तनो देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्यास्वधाकारं अयमज्ञर्वैश्वानदो योयमन्तः पुरुषे येनेदमन्नम् पच्यते यदिदमद्यते ये तस्यैष घोषो भवति यमेतः कर्णावपिधाय शृणोति स यगोत्क्रमिष्यन् यदा वै पुरुषोऽस्माल्लोकात्रैति समायमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खन्तेन सौद्ध आक्रमते स आदित्यमागच्छति तस्मै स विजिहीते यथा लम्बरस्य खन्तेन सौद्ध आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र यथा दुन्दुभेः खन्तेन सौ आक्रमते स लोकमागच्छत्यशोकमहिमन्तस्मिन् वसति शाश्वती समाः ये तद्वै परमन्तपो यज्ञाहितस्तप्यते परमग्ने हैवलोकञ्जयति य एवं वेदैतद्वै परमन्तपोयं प्रेतमरण्यज्ञे हरन्ति परमग् हैवलोकञ्जयति य एवं वेदैतद्वै परमन्तपोयं प्रेतमग्नावभ्या दधति परमग् हैवलोकञ्जयति य एवं वेदा न्नम् ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येकः हुस्तन्न तथा शुष्यति वै प्राणऋतेन्नादेते हत्वेव देवते एकधा भूयम् भूत्वा परमताम् गच्छतस्तद्धस्माह प्रातृदः पितरम् कि यस्मि देवैवं विदुषे स्मा असाधु कुर्यामिति सहस्माः पाणिनामा प्रादृदकस्पेन योरेकथा भूयं भूत्वा बलमताङ्गच्छतीति तस्मा उहै तदुवाच वीत्यन्नं वैव्ये हिमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वैरं सर्वाणि भूतानि रमन्ते सर्वाणि ह अस्मिन् भू भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेदा मुक्थम् प्राणो भावुक्थम् प्राणो हि लज्ञे सर्वमुत्थापयत्युग्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सा यज्ज्ञे स य एवं वेदा यजु प्राणो वै यजुराे मा सर्वा भूताुंते हास्म सर्वा भूता शैक्षा यजुष सायुजगे सलोकताज वेद सामप्राणो वै सामप्राणे हीमानि सर्वाणि भूतानि संयञ्चि संयञ्चिहास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम् नः सायज्जज्ञे सलो वेदा क्षत्रम् प्राणो वै क्षत्रम् प्राणो हि वै क्षत्रं त्रायदेहैणम् प्राणक्षणितो प्रक्षत्रमत्रमाप्नोति क्षत्रस्य सायुज्यगलगताञ्जयति य एवं वेदा भूमिरन्तरिक्षं योरित्यष्टावक्षराण्यष्टाक्षरग्रेहवादेकङ्ग ी पदमेतद् हैवा स्या एतत्स यावदेषु त्रिषु लोकेषु तावद्ध जयति ्यष्टावक्षराण्यष्टाक्षरगृहवा एकङ्गायत्यै पदमेतदुहैमा स्या एतत्स यावतीयम् णोपानाव्यानयित्यष्टावक्षराण्यष्टाक्षरगृहवा इति दशैव परो रदा इति सर्वम्येवैषरजमुपर्युवरितपक्ते वग्ेहैवश्रिया यश साधपति योऽ स्या एतदेवम् पदं वेद वैशा गायत्ये तस्मि घ्रस्तुरीये दर्शते पदे परो रजसि प्रतिष्ठिता तद्वैतत्सत्ये प्रतिष्ठितञ्चक्षुर्वै सत्यं चक्षुरिः वै सत्यं तस्माद्यदिदानी विपदमानावे यातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्ध्याम तद्वै तत्सत्यं प्रतिष्ठितं प्राणो वै भवलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्भज्ञे सत्यादो गीय इत्येवं वेशा गायत्र्यध्यात्मं प्रतिष्ठिता साहैषा गयाज्ञस्तत्रे प्राणा वै गयास्तत्प्राणा ग्रेतयागस्तायत्री नाम सामने वा सात्रीमेषा सन्वा हाणगस्त्रयते यितामेके सावित्रीमनष्टुभमन्वाहुर्वागनष्टुपे तद्वाच मनुब्रूमयिति न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदिह वा अप्येवं पूर्णा प्रति गृह्णीयात्सोऽ स्या एतत्प्रथमं पदमाप्नुया दथ यावती यन्त्रयी विद्यायस्तावत्प्रति गृह्णी यात्सोऽ स्या एतद् द्वितीयं पदमाप्नुया दध यावदिदं प्राणियस्तावत्प्रतिगृह्णीयात्सोऽ शपति नाप्यंगुतरो गीया स्या उपस्थानङ्गाय त्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुलीयाय दर्शताय पदाय पदो रजसे सामदो मा प्रापदिति कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते हमदः प्रापमिति वा एतद्ध वैतज्जनको वैदेहो गुलिलमाश्वतराश्विमुवाचयन् मुहो तद्गायत्रीविदब्रूथा अथगथ गेहस्तीभूतो महसीतिमुख ग्रह्यस्या सम्भ्रान्नविदाचकारेति होवाच तस्या अग्निरेव मुखै यदिह वा अपि भक्ति वा गावभ्या दधति सर्वमेव तत्सङ्ग्रहत्येव ग्रेहैवै विद्यपि भक्मिव पापम् कुरुते सर्वमेव तत्संसायशुद्धः पूतो जरोमृदः सम्भवति हिरण्मयेन पात्रेण सत्यस्यापि मुखम् तत्त्वम् पूषन्नपावृणसत्यधर्माय दृष्टये ऊषन्ने करिषे यमसूर्यप्राजापत्यव्योहरश्मिसमोहते जो यत्ते रूपं कल्याणतमम् तत्ते पश्यामि योऽसामसौ पुरुषः सोऽहमस्मि वायुरनिलमममृतमथेलम्भस्मान्तज्ञे शरीरम् क्रतो स्मर कृतज्ञ स्मर क्रतो स्मर कृतज्ञ स्मर अग्ने यशुपथा राये अस्मान्विश्वानि देववञ्जुनानि विद्वान् युयोध्यस्मज्जोराण मेनो भूयिष्ठात् नुक्तिं विहेम ओ इति पञ्चमोऽध्यायः